विद्महे छाया पुत्राय धीमहि तण्डो मन्दः प्रचोदयात् अस्य श्रीशनैश्चरकवचमहामन्त्रस्य कश्यपर्षिः अनटच्छन्दः शनैश्चरो देवता शम् बीजम् नम् शक्तिः माम् कीलकम् मम शनैश्चरप्रसादसिद्ध्यर्थे जपे विनियोगः चतुर्भुजम् शनिम् देवम् चापदूणीकृपाणकैः सहितम् वरदम् भीमम् नीलोत्पलाकृतिम् नीलमाल्यानुलेपम् च नीलरत्नैरलङ्कृतम् ज्वालोत्तपकुटाभासम् नीलकृध्ररथान्वितम् मेरुम् प्रदक्षिणम् यान्तम् सर्वलोकभयावहम् कृष्णाम् वरधरम् देवम् विभुजम् कृध्वसंस्थितम् सर्वपीडाहरम् नेणा ध्यायेद्ग्रहगणोत्तमम् शनैश्चरशिरो रक्षेत् मुखम् भक्ताग्निनाशनः कर्णो कृष्णाम् परः नेत्रे सर्वभयङ्करः कृष्णाङ्गोनादिकाम् रक्षेत् कण्ठम् मेशिति भुजो मे सुभुजः पातु हस्तौ नीलोत्पलप्रभः पातु मे हृदयम् कृष्णः कुक्षिम् शुष्को दरस्तथा कटिम् मे विकटः पातु ऊरू मे जानुली पातु मे दीर्घो जङ्घे मे मङ्गलप्रदः कुल्पो गुणकरः पातु पङ्गुपादकः सर्वाणि च ममाङ्गाणि स्करनन्दनः ययिदम् रवचम् दिव्यं सर्वपीडाहरम् ऋणा पठति श्रद्धया युक्तः